शरीरम् च मृतस्यैकम् समबद्धन्त पाण्डवाः विवर्जयिष्यन्ति नरा दूरादेवशनीमिमा आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् अशीतिशतवर्षेयम् माता न इति वादिनः कुलधर्मोऽयमस्माकम् पूर्वैराचरितोऽपि वा समासज्याथ वृक्षेऽस्मिन्निति आगोपालाविपालेभ्य आचक्षाणा अपरन्तपाः आजग्मरुनगराभ्याशम् पार्थाशत्रुनिवर्हणाः जयो जयन्तो विजयो जयत्सेनो जयद्बलः इति गुह्यानि नामानि चक्रे तेषाम् युधिष्ठिरः ततो यथा प्रतिज्ञाभिप्राविशन्नगरम् महत् अज्ञातचर्याम् वत्स्यन्तो राष्ट्रे वर्षम् त्रयोदशम्